अथ नवमः सर्गः ततो निकुम्भोरभसः सूर्यशत्रुर्महाबलः सुप्तघ्नो यज्ञकोपश्च महापार्श्वमहोदरौ अग्निकेतुश्च दुर्धरुषो रश्मिकेतुश्च राक्षसः इन्द्रजिच्च महातेजा बलवान् रावणात्मजः प्रहस्तोऽथ विरूपाक्षो वज्रदंष्ट्रो महाबलः धूम्राक्षश्चातिकायश्च दुर्मुखश्चैव राक्षसः परिघान् पट्टिषाच्छूलान्प्रासाञ्छक्तिपरश्वधान् चापानि च अद्य रामम् वधिष्यामः सुग्रीवम् च सलक्ष्मणम् कृपणम् च प्रदर्शिता तान् गृहीता युधान् सर्वान् वारयित्वा विभीषणः अब्रवीत् प्राञ्जलिर्वाक्यम् पुनः प्रत्युपवेश्यतान् अप्युपायैस्त्रिभिस्तातयोऽर्थः प्राप्तुम् तस्य विक्रमकालांस्तान् युक्ता नाहुर्मनीषिणः प्रमत्तेष्वभियुक्तेषु दैवेन प्रहतेषु च विक्रमास्तात सिद्ध्यन्ति परीक्ष्यविधिना कृताः अप्रमत्तम् कथन्तम् गतिम् हनूमतो लोके को विद्या तर्कयेतव बलान्यपरिमेयानि वीर्याणि च निशाचराः परेषाम् सहसावज्ञानकर्तव्या कथञ्चन किम् च राक्षस राजस्य रामेणापकृतम् भार्याम् यशस्विनः खरो यद्यतिवृत्तस्तु स अवश्यम् प्राणिनाम् प्राणा रक्षितव्या यथा बलम् एतन्निमित्तम् वैदेही भयम् नः सुमहद्भवेत् आहृता सा परित्याज्या कलहार्थे कृते नु किम् न धर्मानुवर्तिना वैरम् निरर्थकं कर्तुम् दीयतामस्य मैथिली यावन्न स बहुरत्नसमाकुलाम् पुरीम् दारयते बाणैर्दीयतामस्य मैथिली महती दुर्धर्षा हरिवाहिनी नावत् स्कन्दति नो लङ्काम् तावत् सीता प्रदीयताम् सर्वे च रामस्य दयिता पत्नी न स्वयम् प्रसादये त्वाम् बन्धुत्वात् कुरुष्व वचनम् मम हितम् तथ्यम् त्वहम् ब्रूमि दीयतामस्य मैथिली पुरा शरत् सूर्यमरीचि सन्निभान्नवाग्रपुङ्खान् सुदृढान् त्यजा सुखधर्मनाशनं सुखधर्म नाशनम् भजस्वधर्मम् रतिकीर्तिवर्धनम् प्रसीद जीवेम स पुत्रबान्धवाः प्रदीयताम् दाशरथाय रावणो राक्षसेश्वरः विसर्जयित्वा तान् प्रविवेशस्वकम् गृहम् शे श्रीमद्राणे वाक्ये युद्धकांडे नव सर्ग